गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् ट्वेण्टि क उवाच हतशिष्ठा केऽपि वीरास्रवद्रक्ता सुदुःखिता सिन्धुं सभागतं चेद्धं भीदभीदा अधा ब्रुवन् धनुर्धर निबोधेदमधिदुःखकरं वचः धर्माधर्मौ तव सुतौ कृत्वा युद्धं महत्तरं निन्युतुर्देवसेनां तौ हत्वा हत्वा यमक्षयं तदः कोऽपि महावीरो मुखैषड्भिर्विराजितः सो पिताभ्याखरे पाईीतलेन धृतौ वीरौ शिखायां तुभाम्वा बहुत पादीत तौ धरात शीर्ण देख तौदौ तौ, तौ, तौ स्वर्गमुत्तमम् क उवाच एवमाकर्ण्यतद्वाक्यं नृपतद्दैत्यपुङ्कवः शोकसागरमग्नोऽभूद्वज्राकद दा इवाचलः धावमानैः सुहृद्वर्गैः स आशुद्धापितो बलाद मुहूर्ता प्रकृति व्यादशुशोच बहुदुखि सिंधुवाच शक्रादकिदायाभ्याणे पुरा तौ तौद न कथम वीरौडा से नहाबल विहाय माम् कथं स्वर्गं गदावुभौ सुरसेनानिकन्दारौ कृतान्दस्यान्दकावुभौ नानेष्ये शत्रुमूर्धानं ददास्यं दर्शयन च गमनावसरे प्रोक्तं तत्सत्यं किं कृदं त्वया अध दुर्गा सखीभिस्तु वृत्तान्तोऽन्तपुरे तदा कथितो विस्तरेणैव रुदतीभिः सुदुःखदः सख्युवाच भर्तारोदि ते सुभ्रुधर्माधर्मौ मृदा विधि साधपर्यङ्गसुगदान्यपदत्पृथिवीतले ब्रह्मेव वादनिहदा कोमलारुणपल्लवा सखी दुष्टवजोभिः सा बाणैरिव हृदिक्षता विस्रस्तकेशाभरणा साप्य रोदि तदा भृशम् विस्रस्तवस्त्रा विकसत् बिल्ल्वचारुपयोधरा अश्रुश्यामलगण्डा सा शोकनलकदप्रभा जघ्नेमुखं सा पाणिभ्यां दन्दासृक्सिकृभूतला निरस्तदेहभावा सा विकला विकतत्रपा सभाङ्गणगदा लुण्ढदण्डकृत् बालको यथा सर्वे तदः सभ्यवरा रुरुदुदुःखकर्षिताः प्रस्रवन्यत्र सलिला प्राब्रवीतान् सभासदः राज्ञी उवाच कथं सर्वेषु वीरेषु जीवत्सुतौ सुतौ मम प्रेषितौ रणभूमिं तौ मामपृष्ट्वादुकोमलौ मया शीचेन्नियुक्तास्यान्नतयोर्मरणं भवेत् न किमेव जनं दादामिद्या कर्तुं समीहते याभ्यां जिदादेवगणास्थौ कथं निधनं गदौ क्वद्रक्ष्याम्यहमेतौ यौ जिज्ञदुर्मदनं रुजा बुद्धिना यौ सरस्वन्तौ तौ मां त्यक्त्वा कथं गदौ तयो शोकाग्निना दग्धा मरिष्याम्यहमद्य वै इत्युक्त्वान्यपदद्भूमौ निघ्नति हृदये मुहुः तदसख्यो नागराश्च बोधयामासुरञ्जसा न माधकोऽपि यो मृदः पुनरागतः मृत्युलोके चिरंस्तादा नेक्षिदो न श्रुतोऽपि च विहाय हनुमन्तं च कृपं सारद्वदम्बलिं व्यासं परशुरामं च विभीषणमथापि द्रौणीं नान्यश्चिरं स्थायी न ना भूतो न भविष्यति ब्रह्मादीनां भवेन्मृत्युक् का तत्र गणनात्मनः रोदनं तेन कर्तव्यं न स्यान्मृत्युः कदास्य चेद् क्षीणे ऋणानुबन्धेजस्त्री पुत्र पशुरेव च न तिष्ठदि ध्रुवं तत्र कृतशोको वृथा भवेद् यथा काष्ठं काष्ठगदं पुरे स्याच्च वियुज्यते तद्वजन् दुर्वियोगं च योगं च प्राप्नुदेवशः नानापक्षिगणारात्रावेगवृक्षा गदा यथा प्रादर्दशदिशो यान्ति तत्र किं परिवेदनं क उवाच एवं दुर्गा सिन्धुश्च जन एव च वासने संविवेशः उपहासं करिष्यन्ति सपत्ना रुददामिति दुर्गा धृत्वा बलाल्लोका निन्युरन्धःपुरं हि तां निःश्वसन्ति पपातासौ पर्यङ्के शोककर्षिता सिन्धु क्रोधसंयुक्तो जग्राहशस्त्रसञ्चयम् पुत्रयोर्निष्कृतिं कर्तुं हयारूढो ययौरणं यादे तस्मिन्महसैन्यं चतुरङ्करणोत्सुकम् उड्डीयोड्डीयधावन्तो ययुः पूर्वं पदादयः नानावर्णा एकरूपा नानाशास्त्रास्त्रपाणयः तदो वारणसङ्घादा नानाधादु विचित्रिताः कण्टाभरणशोभाढ्या दानोदकप्रवर्षिणः चीत्कार भीषितपरा महाराव महारावभयङ्कराः तदोऽश्वा प्रागमन्सादियुक्ता वायुजवारणं द्विश्वुलिंगा निपतन्तो धरातले शुशुभुः सादिनस्तत्र खेडकुन्दाशिपाणयः चन्दनागरुलिप्ताङ्गा नानामाला विभूषिताः तनुत्प्राणभृतः सर्वे कण्डभ्राजिमस्तकाः ग्रसन्दयिव चाकाश्यं नादयन्दो दिशो दश रथास्ततो गमन्नानामहावीरैरधिष्ठिताः संपूर्ण धनुस्तूणी संयुद तमध्ये शुशुभे सिंधुमुकुटकुंडल ना शस्त्रुष्पास्तूरकूषण वीरकणशोभासूत्रांगद प्रभ क्रोधसंरक्तनयनो लोकत्रय बुभुक्षया वाद्यस्तु सर्ववाद्येषु बन्धिषु च च यावद्यादिमहावेगात् तावदूतस्तमब्रवीद पिता देयादिदैत्येश तं प्रतीक्षस्व सुव्रद परा वृत्त्येक्षदे यावदश्वगदं सुदं अपश्यदभ्याशगदं नमश्चक्रे स चापितं तत्रसुदं दुर्गं कृत्वा चमोचरैः उपदेशं च कृतवान् सुखाया मुद्रचे चक्रपावाच गेण वर्ते पुत्रश्रििया मत् न बुध्यसे अर्धज्ञ महाृद्धा प्ठव्या भूदिम्छदा अग्रे शुभे पूर्वशुभम नाचरेद अल्पेन ना कर्मणा नाशं पुण्यमेत्य शुभे नः अनुरग्निर्दहेत्सर्वं पुण्यं दोषस्तथा सुत पुत्र बद्धेषु तेषु ते क्वचिद् स एव पुत्रो यो तस्य चोल्लङ्घने पुण्यं नाश्यमेति च जायते दोषजालं मोहजालं नाना निरयदं सुदा अदशृणुखितं वाक्यं मोचयासु सुरान्सुत मुक्तेषु तु भवेन्मित्रं मयूरेशोऽखिलार्दः न चेह द्वेषदकश्चित्सुखं प्राप्तो धरातले विनाश्यं प्रापिता देवैर्हिरण्याक्षादयोः सुराः क उवाच इति पितृवच श्रुत्वा चुकोपादितरां सुतः धिकृत्यपितरं प्राक् मम चतुरस्त्वं पितामेवैज्ञानं सम्यक् प्रकाशितं भाषसे मूढवत्तादकृत्वा कृत्वाश्यामं मुखं व्रज येन मे निहदा सेनापरार्थगणितापितः तेनेदानीं कथं सामकर्तव्यमयशस्करम् कुशाक्षमालाधरणं राजधर्मेहिनेश्यदे हि नेष्यदे तस्माद्दया नरेन्द्रेण न कार्या शत्रुसञ्चये निर्दयत्वमरावेव यथा एवमुक्त्वा नमस्कृत्य सिन्धुदैत्यराड परावृत्यबलात्तं स ययौ योद्धुं रणोत्सुकः इति श्रीगणेशपुराणे क्रीडाखण्डे पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः ओ